त्र्यम्बकम् यजामहे त्र्यम्बकमिति स्त्री अम्बकम् यजामहे सुगन्धिम् सुगन्धिम् पुष्टिवर्धनम् सुगन्धिमिति सुगन्धिम् पुष्टिवर्धनमिति पुष्टि वर्धनम् उर्वारुकमिव इव बन्धनात् बन्धनान् मृत्योः मृत्योर्मुक्षीया मोक्षीयमा मामृतात् अमृतादेत्यमृतात् य रुद्रः अग्नौ आप्सो आप्सो यः अप्स्वेत्यपसो आप य ओषधीषो ओषधीषु यः यो रुद्रः रुद्रो विश्वा विश्वा भुवना भुवनाविवेश आविवेशतस्मै विवेशेत्या आ विवेश तस्मै रुद्राय रुद्राय नमः नमो अस्तु अस्मेत्यस्तो हरिः त्र्यम्बकम् यजामहे त्र्यम्बकम्